अनीचैर्नाप्यविषयैर्ना धर्मिष्ठैर्विशेषतः ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः लोकाचारेषु वेदोक्ताः शिष्टसम्मताः ते युष्मासु व्यस्ताश्चैवेह सद्गुणाः इच्छामो गुणवन्मध्ये वस्तुन् श्रेयोभिकाङ्क्षिणः युधिष्ठिर उवाच धन्या वयम् यदस्माकम् स्नेहकारुण्ययन्त्रिताः असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः तदहम् भ्रातृसहितः सर्वान् विज्ञापयामिव नान्यथा तद्धिकर्तव्यम् अस्मत्स्नेहानुकम्पया भीष्मः पितामहो राजा विदुरो जननीच मे सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ते त्वस्मद्भितकामार्थम् प्रयत्नतः युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः निवर्ततागता निवर्ततागतादूरं समागमनशापिताः स्वजनेऽन्यासभूते मे कार्या स्नेहान्विता मतिः एतद्धिः मम कार्याणाम् परमम् हृदि संस्थितम् कृता तेन तुष्टिर्मे सत्कारश्च भविष्यति वैशम्पायन उवाच तथातास्त धर्मराजे ना प्रजा चक्रुरा घोर हाजनि सांहता गुणा पार्थ्य संस्मृत्य दुखाता अका सन्न वर्तन सगमयाथ पांडवा